धन्यमानमस्यामेध्यम् अपमात्मान यजमानस्य हन्तु शिवानः सन्तु प्रतिषष्ठदस्य षण्णो माता पृथिवीतोकसाता षण्णो देवीरभिष्टये आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः वैश्वानरस्य रूपम् पृथिव्याम् परिस्रसा पिशन्तु नः यन् दिवो नितः पृथिव्याः सङ्गज्ञानेनो दशीतम् बभूवत् ऊषान्कृष्णमवत् कृष्णमूषाः कुर्वाणो यत् पृथिवीमतरः गुहाकारमासुरूपम् प्रतीत्य तरते न्यक्तमिकसम्भरन्तः सरीराः ऊर्जम् पृथिव्यारसमाभरन्तः शरदपरोगेः वम्रेभरणवित्तम् गुहासु स्वन्तवर्गपति प्रजापतिसृष्टानाम् प्रजानाम् क्षुतोपहत्ते तु विपन्नो अस्तु उपप्रभिन्नविषमोर्जम् प्रजाभ्यः सूरङ्घ्रेभ्यो रसमाभरामि यस्य लोकम् बिभ्रति मामविन्दति गुहाप्रविष्टागम् शरीरस्य मध्ये तस्येदम् विहतमाभरन्तः अशम्वकारमस्याम् विधेम यत्पर्यपश्यत् शरीरस्य मध्ये उर्वीमपश्यज्जगतः प्रतिष्ठाम् अर्पुष्करस्यायतनाध्यम् अर्णम् पृथिव्याः प्रसरगम् भरामि याभिरगम् हज्जगतः प्रतिष्ठाम् उर्वीमाम् विश्वजनस्य भक्तिम् तानः शिवाः शर्कराः सन्तु सर्वाः अग्नेरेणश्चन्द्रयम् हिरण्यम् अर्धः सम्भोधमनम् प्रजासो तत्सम्भरन् लुत्तरतो निधाय अधिप्रेच्छन्तुलिकुन्तलेयम् अश्वालोपम् कृत्वा ऊर्जः पृथिव्याध्युक्षितोऽसि पर्णस्पदेशवशो विरोह पया वयविषमोर्जम् मदन्तः गायशोषेण गायक्रिया क्रियमाणस्तयत्ते पर्णमपदत्रकीयस्ते सोऽयम् पर्णस्वामपर्णाभिजातःध्यैवानाम् ब्रह्मवादम् मदता यत् उपाशिणो शुश्रभावे श्यतो ततो भावाविशतुब्रह्मवर्कथम् तत्सम्भरगस्तदपरुन्धीयसाक्षात् यया ते षष्ठस्याग्नेः हेतिमशमयप्रजापतिः सामप्रदाय समेकम् शान्ते साम्याम् यत्ते षष्ठस्य यतः विजङ्कतम् पुरुन्नागमनप्रभाहितान्तस्य हृदयः छिन्दम् जातवेदः मरुत्वाभ्यस्तमयित्वा एतत् एतत् शलयः सम्भरामि सात्मा अग्ने सहृदया भवेद चित्रिया स्वर्धात्सम्भृता विहत्यः शरीरमपि तर्गस्कृतास्था प्रजापतिनायज्ञाः प्रजाते अश्वत्थार्थव्यवाहा अर्गेस्तनो विग्निकापम् सम्भरामि शान्तयोश मे गर्भम् अर्गये प्रजनयितवे यो अश्वत्थः शमी गर्भः आदरो हते सता वन्दे हरामि ब्रह्मणायकेलभिः सह यन्ताभरञ्जातवेदः यथाश्रेयम् भवते सन्न्यक्तम् शिवः प्रजाप्य पुनन्नो लोकमरुणे च विद्वान् प्रवेदये कमयेमेऽध्याय यतो यतोभयमभयम् तन्नो अस्तु अवदेवानि देहेद्यान् समिधाग्नि पश्यता हते आस्मिन् हव्याजुहोतराज्ञे हविष्मतेः घृताचेर्यन्तो हर्यता गृहस्व समिधो मम तन्ता समिद्भिरङ्गिनः घृतेन वर्धयामधे बृहच्छोचायमिष्ठ्या सद्यमानः प्रथमो न धर्मः समर्तिभिरज्ञदे विश्ववालः शोचिष्केशो घृतनिर्णिपापकः अग्निर्यथाय देवान् घृतप्रतीको घृतयाग्निः घृतैः समिद्धो घृतमस्यान्नम् घृतपुषस्ता धरितो वहन्ति घृतम् आयन्ता हृदयो निरधिताव्यम् पुत्रमभिरक्षदाम् त्वामज्ञेतमिधानैष्ठ देवादूतञ्चकृहव्यवाहम् पुरुग्रेसम् हृदयो निवाहुतम् ष्ठसे घृतप्रतीकम् वरतस्य सोर्षलम् अग्निम् मित्रम् न समिधानलिङ्गते शुक्रवर्णामुदुकाजपुंसतेनम् प्रजाग्ने संवादय आशाश्च वशुभिः सह यान्यः सवे विश्वक्लेशेतम् धर्मेरयम् अन्तर्वक्लैजन्यम् जातमेतसम् अध्वराणाञ्जनयसः पुरोगाम् आराहतम् युषावर्कसा सह जनो जीवन्तमुत्तरामुत्तरांसमाहम् पौर्नमाजैयज्ञै यथायजैः स्थो अज्ञरेतसौ विर्भन्तसाम् देवा वहन्तदे तत्सत्यै यद्धीरम् विभृथः विरञ्जनयिष्यसः प्रेमत्रासः प्रजयिष्येथे प्रेमा प्रजाते प्रजा प्रजनयिष्यसः प्रदया पशुपत् ब्रह्मार्गदेन सुवर्गे लोके अददात् सत्यमुपेमि बालुषाद्दैवमुपेमि दैवी भाजम् यच्छामि शङ्केरज्ञमिन्धानः उभौ लोकौ सने अहम् उभयोर्लोकयोरुद्ध्वा अतिमत्यन्तराम्यहम् जातवेतभुवनस्य वेतः इहसि तपसौरेद्धलश्यतेः छासिवाहम्भाजनयमयोः अयम् ते योजृत्यः योजातो अरोचथाः कण्डानन्दज्ञारोह अथा नोवर्धया रयम् अवेतवेदवेदर्पथास्थपुराणाय नूतनाः अदाजै यमावसानम् पृथिव्याः अकण्डिमम् पितरो लोकमस्मै स्मास्ज्ञेः पुरेणे कामधरणम् भूयात् संवत्सृजानि सर्वम् दृष्टम् मनो अस्तु वः सर्वम् दृष्टः प्राणो अस्तु वः्यावप्रियास्तनुवः संप्रियाहृदयानि वः आत्मा वो कल्पेतान्द्या वा पृथिवी कल्पन्तामापोषधीः कल्पन्तामज्ञयः पृथक् मम ज्येष्ठ्यायसंप्रदाः हेज्ञयः समनदः अन्तराद्या वा पृथिवी वासन्तिकावृतो अभिकल्पमानाः इन्द्रमिव देवा अभिसंविशन्तो विवस्त्वा वीर्येण पृथिव्ये महिम्ना अन्तरिक्षस्य पोषेण सर्वपशुमातथे अजिजनम् नमतम् मत्या सह अश्रयमानम् तरणिम् वेणुजम्भम् दशस्वसारो अग्रवः समीचीमागुञ्जरम् जातमभितगुणभन्ताम् पदापदेऽस्त्वा प्राणेनाभिप्राणिमे ओष्टः पोषे नमह्यम् दीर्घायित्वायशरसारदाय शरगुम् धरभ्यायुषयमध्यथे अहम् त्वदस्मि मदसित्वमेतरे ममासियोनिस्तमयोनिरस्मि ममैव संवहव्यान्यग्ने पुत्रः पित्रे लोकर्जातवेदः प्राणे त्वामृतमादधामि अन्नादमन्नाद्यायक्तारङ्कृत्यैः सुगाविषपत्योविदहन्नः उषदः श्रेयसे श्रेयसे अग्ने सुपत्रागम् स्मातुमा उपतिष्ठन्तु राजः आभिष्प्रजाभिषसंश्वरूपीष्मायासे सपत्रतोस्ते देवेषु हिमासुबद्धः यस्तात्मा पशप्रविष्टः पुष्कर्यादे मनुष्येषु पथे अग्ने दृशमानने पृथिव्याः पर्यन्तरिक्षात् पशुभ्यो अध्यौषधीभ्यः यत्र यत्र जातवेदः सम्बूथ ततो नो अग्ने दृशमाननेःवनम् परिधम्भे हि विद्वान् अग्नेरग्ने पुरो अग्निर्भवेह भोद्यन्नाथे द्विपदे चतुष्पदे अन्वज्ञरुषसामग्रवक्ष्यते अन्वहारो जातवेदाः अनतो पुरुत्रा च रश्मीर अनुद्या वा पृथिवी आदतान विक्रमस्व महाकुम्पसिषम् मारुषेभ्यः पृषरोगेषु जागृहे यदिजम् दिवो विनतः पृथिव्याः संविधाने लोकधेदम् बभूवतुः पृष्ठेति तदु जातवेदाः शम्भोः प्रजाभ्यस्तदवे स्यो नः काणम् तामृता दधामि अन्नादमन्नाभ्याय गोप्तारम् गुप्तैः यत्ते शुक्रशुक्रम् वर्त्यः शुक्रातरोः शुक्रम् शुक्रा जोधरजस्रम् तेन वेदेन हितेन द्वादथे अर्णिना ब्रह्मणा आनसे अव्यानसे सम्भमादिव्यानसे हर्यप्रजाम् मे गोपाय अमुदर्ताय जीवसे दाताम् च नश्यमाणाम् च अमुदे सत्ये प्रतिष्ठिताम् असर्वमिदम् मे गोपाय रसमन्वविहायुषे अदर्भायो शीततमो अविषण्णः पितङ्कणो षर्गस्य पशोन्मे गोपाय दिवाजोदे चतुष्पथः अष्टाशभाश्रयहाग्ने एते सभाशुकाः सम्पदसभाम् गोपाय एष्याः सभासदः आवदः कुरु समाजोपासरा हरे मध्यमन्तम् मे गोपाय यमुषयस्त्री विना विदः विदः सामानिजोगुम्भिः गणपदे काभुवनस्य मध्ये सौभगाय अह्यन्धुक्ष्मयजमानाय कामान् इहैव सन्तत्र सतोः अग्नयः रामेण वाचामनसाम् विधर्मिभासन्त प्रहासीत् ज्योतिषा भो वैश्वादयेनोपदिष्टे पञ्चथाग्नेन्द्रिक्रामदेष्टा प्रजामदेः रोहद्रोहिणी यो यदग्नेः प्रतिष्ठितिः न वेदान्यहानि भवन्ति न वेदुवर्गालोकाः यदेतान्यहान्युपयन्ति नवस्वेम तत्सु वर्गेषु लोकेषु तत्रिनः प्रतिष्ठन्तोयन्ति अग्निष्टोमाः परः सामानः कार्या इत्याहुः अग्निष्टोमसंविदस्तु वर्गो लोक इति द्वादशाग्न्यष्टोमस्य स्तोत्राणि द्वादशमासाः संवत्सरः तत् तन्न सोऽक्ष्यम् उक्ष्या एव सप्तदशापरः सामानकार्याः अशो वा मुक्तानि पशोरामवरुद्ध्यै विश्वजितभिजिदामग्न्यष्टोमौ मुक्षाः सप्तदशापरः सामानः तेषता विनाशमभिसम्पद्यन्ते तिरिच्येते एकजागौरतिरिक्तः एकजातिडूरः स्वर्गोऽपि लोको ज्योतिः भोर्भिराज स्वर्गमेव तेन लोकमभिजयन्ति यत्परगुम्नाथन्तरम् तत्पथमेऽहम् कार्यम् बृहद्बीरे वैरूपम् तृतीये वैराजम् चतुर्थे शाक्वरम् पञ्चमे वैवतकम् षष्ठे तद् पृष्ठे अभ्यो नयन्ति सन्तन एते ग्रहारित्यन्ते अनिग्राह्याः परः सामधु विमानेवेते लोकान् सन्तन्वन्ति मिथुना एते ग्रहारित्यन्ते अनिग्राह्याः परः सामधु मिथुनमेव तेऽपि भवति बृहदेशर्गो लोकः गृहे मुवर्गम् लोकय्यन्ति त्रयस्त्रिपुंसि नाम सा न माभ्यन्ति ने भगवमाने भवति त्रयस्त्रिपुंशद्वे देवताः देवता एवावृन्धते एवा इतःपराः चकं संवत्सरमुपयन्ति न हीनन्ते स्वस्ति समश्नुपते अशेव सोर्वाञ्चमुपयन्ति ते हीनद्यः स्वस्ति समश्नुपते एतद्वामुतोवान् च मुहयन्ति यदेवम् प्रजापतिः सौदेवेन्द्रः तदुदेवेभ्यो नयन्ति सन्तर्वा एते ग्रहाः यत्परः सामानः विशोकान् विवाकीर्त्यम् यथा शालागे पक्षसी एव कुंसम्वत्सरस्य पक्षसी एतेन कृह्येरन्ने विशोचेतम् वत्सरस्य पक्षसे व्यवस्करम् देयाताम् आर्तिमाच्छेयुवम् एते दे दे दृश्यन्ते यथा शाला ये पक्षसे मध्यमम् वपुंशमभिसमायच्छति एव पुंसम् निवा कीर्त्यमभितम् धन्वन्ति आर्तिमाच्छन्ते एकपि कुंसमहद्भवति शुक्राग्राग्रा दृष्ट्यन्ते शौर्य एतदः पशुरालभ्यते शौर्यो विग्राह्यो लक्ष्यते अहरेव रूपेण समर्थयन्ति अथवा अन्ध एवेण वैक्रियते सप्तैतदः यदि ग्राह्यारित्यन्ते प्राणाः इत्यशिरः प्रजानाः शेषण् प्रजानाः तस्मात् सप्तशेषम् प्राणाः इन्द्रो वृत्रको हत्वा असुरान् पराभाव्य हरिमान् लोकानभ्यजयत् तस्यासो लोकोऽनभिजिताधीत् तम् विश्वकर्मा भूत्वाभ्यजयत् यद्वैवेश्वकर्मणो गृह्यते स्वर्गस्य लोकस्याभिजित्यै प्रवायते यस्माम् लोकाच्च वन्दे येन ईश्वरकर्मणम् गृह्णते आदित्यश्वागृह्यते यम् वा अदितिः अस्यामेव प्रतिष्ठन्ति अन्यान्यागृह्येते विश्वान्येवान्येन कर्माणि गुर्वा नयन्ति अस्यामन्येन प्रतिष्ठन्ति का वा परार्जासम्वत्सरस्यान्यान्यागृह्येते सा उभौ सह यज्ञसेवान्तम् गत्वा भयोर् लोकयोः प्रतिष्ठन्ति अर्ज्यमुखम् भवति अन्नाद्यश्चावरुद्धे एकविपुंसकेश भवति एतेन वै देवादेकविपुंशेन दे आदित्यमिदमुत्तमकुंसुवर्गम् लोकमारोहयन् समादेश इददेकविकुंशः तस्य दशावस्तादहानि दश परस्तानात् समानेण विराज्युभयदर्पतिष्ठितः विराजिवारेण उभयदर्पतिष्ठितः तस्मादन्तरेमो लोकौ यन् सर्वेषु तु वर्गेषु लोकेष्वभितमन्नेति देवावाहादित्यस्य तु वर्गस्कलोकस्य अराजोदिपादादिविभयः पञ्चन्तो हिरतृगम् हृत्यै देवावादित्यस्य तु वर्गस्कलोकस्य अवादोपपादादिविभयः तम् पञ्चभिरस्तुभिरुदवयन् तस्मादेकभिपुंसे हन् पञ्चदिवाकीर्त्या क्रियन्ते रश्मयोगे दिवाकीर्त्यायत्रे एका एकायत्रेषुमानयोः महादिवाकीर्त्यकुम्भोदपृष्ठम् विकर्णम् ब्रह्मधामम् भासो अग्निष्टोमः अथैतानि पराणि परे रे देवाः नित्यगम् सुवर्गम् लोकमपालयन् यदपालयन् तत्पराणाम् परत्वम् पारयन्तेन पराणि एवम् वेदा अचैतानि स्फलानि स्परे रे देवाः आदित्यगं सुवर्गम् लोकमस्पालयन् यज स्पालयन् तत्स्मराणागुस्परत्वम् स्पालयन्ते अप्रतिष्ठाम् वा नेते गच्छन्ति एताकम् संवत्सरे नाप्यते च एकादश्याप्यतेः वैष्णवम् वा वनमालभन्ते प्रतिष्ठित्यै ऐन्द्राज्ञवालभन्ते इन्द्राज्ञै वै देवानामयादयामानौ हे एव देवते ते भन्ते ऐश्वदेवमानभन्ते देवता देवावरुन्धते या वा पृथिव्याः धेनमानभन्ते या वा पृथिव्यो देव प्रचतिष्ठन्ति वायुव्यम् वत्समालभन्ते वायुदेवेभ्यो यथायुधनाद् देवता अवरुन्धे आदित्यामयम् वशामालभन्ते इयम् वा अस्यामेव प्रचतिष्ठन्ति वरुणेवालभन्ते मित्रेणैव यज्ञस्य स्पृष्टकम् शमयन्ति वरुणेण गतिष्ठम् राजा प्रत्यन्तोपरम् महाम्रतालभन्ते राजावृत्योदिग्राक्यो दिक्षे अहरेव रूपेण समर्थयन्ति अथो अन्धरेवे परिह्रियते आग्नेयमालभन्ते परिप्रज्ञाः अजपे त्वानुवा एतेरवरुन्धते यदेते रव्याः पशवः लभ्यन्ते उभयेनाम् पशूनामवरुध्यै यदुरिक्तामेकादशिने बालभेरन् आप्यम् भ्रातु्यमभ्यैरिच्येत यद्वौ द्वौ पशु समस्येजो कनीशायः कुर्वीरन् यदेते ब्राह्मणवन्तः पशवः लभ्यन्ते भ्रात्रियम्भा्यमभ्यचरिच्यते नकनीयायः कुर्वते प्रजापतिः प्रजा सृष्ट्वा वृत्तो तम् देवाभूता नागम्व सन्तेन सम्भृत्य तेन अभिरज्यन् महानमवर्तीति तन्महाव्रतस्य महामृतत्वम् महद्ब्रविनि तन्महाभ्रतस्य महामृतत्त्वम् महता ब्रवि तन्महादस्य महापदत्वम् पञ्चविगुंशस्त्वमा भवतिशव्यधमानः संवत्सरः हरिद्वा एतस्मिन् संवत्सरेऽधिप्रायत रन्नम् पञ्चविगुंशमभवते मध्यदः क्रियते मध्यदामधिदन्धिनोति अथो मध्यद एव प्रजानामोद्धीयते अथ विद्वाज मन्त्रदः क्रियते तस्मादन्ते प्रजाः समेधन्ते प्रजनादैवति रेशिरः अस्ति पराजास्तुवन्ति तस्मात् तत्सदि न मेद्यतोनुवेद्यति न पश्यतोनुगृश्यति पञ्चदशोऽन्यः पक्षो भवति सप्तदशोऽन्यः तस्मात् अन्यतरमध्यन्ते अन्यतरमोभिवर्जनीय क्रियते पञ्चविपुंशात्मा भवति तस्मान्मध्यः पशवो वरिष्ठा एतमिपुंसम् पुच्छम् दिवदास्तु वन्ति प्रतिष्ठित्य सर्वेण सहस्तुवन्ति सर्वेण क्यात्मना सहोत्पदन्ति एकैकाभुच्छिगुंसन्ति आत्मङ्गानि बद्धानि न मानेतेन सर्वः पुरुषः लो मानितो न क्रियन्ते तान्येव तेन प्रत्यप्यन्ते औदुम्बरस्तल्पो भवति ओर्घ्वान्नमुदुम्बरः ओर्जगेवान्नाद्यस्यावरुद्धे यस्य तत् अद्यमनभिजितज्ञस्या तदेवानागुम् साम्यक्षे कल्पसत्यमभिजयानेन सर्पमायुश्चाद्गायेत् कल्पसत्यमेवाभिजयते यस्य सर्पसत्यमभिजज्ञः स्यात् स देवागुम् साम्यक्षे कल्पसत्यम् मा पराजयते न सर्पमालिश्चाद्गायेत् न महदेवान्नाद्यस्यावरुद्ध्यै देवासुराः संयत्ताहन् आदित्य व्यागच्छन्त तम् देवाः समजयन् ब्राह्मणश्च शूद्रश्च कर्मकर्त्य व्यागच्छेते दैव्यो वे वर्णो ब्राह्मणः असुर्यः शूद्रः निवेदात्सु निवेशभूतमःत्यन्यतरो ब्रूयात् किमबुद्धादि कारिण किमेतद्भूतमत्र नित्यन्यतरः यदेवेधांसुकृतैाद्धि तदन्यतरोषेनादे तदन्यतरो वहन्ते ब्राह्मणः सञ्चयते अमुमेवादित्यम् भ्रातव्यस्य संविन्दन्ते वो देवासुराः संयत्तासन् हे देवाविनयन्तः अग्नेशोमयोस्तेजस्मिनेः स्तनोः सन्निदशाविष्यति यदि नो जेष्यन्तीति हेनाग्नेशो मामवामुदाम् हे देवा विजित्या अग्नेशो मामन्मये क्षणन् हेग्निमन्मविन्दम् दशसोत्सन्नम् तस्य विभक्तेभिस्तेजस्मिनेः स्तनोरमारुन्धन हे सोमन्मविन्दन् अनघ्नन् तस्य यथाभिज्ञायन्तनोग्निग्रन्थः ते ग्रहाभवन् तद्ग्रहाणाम् ग्रहत्वम् यस्यैवम् विदुषो ग्रहा्यन्ते तस्यत्वेव गृहीताः नानाज्ञेयम् पुनराधेये कुर्यात् विरनाज्ञेयम् पुनराधेये कुर्यात् यद्धमेव तत् अनाज्ञेयम् यत्सविशस्तनोऽनुपातमिणो परिहर्यजते भावाज्ञेयावाद्यभागौ स्यादाम् अनाहाद्यभागौ भवद इत्याहोः यद्भावाज्ञेनावन्वञ्चामिति अग्ने पवमानायोत्तरः स्यात् यत्पमानाय येनाद्यभागः येन सौम्यः बुधन्वत्या ज्ञेयस्याद्यभागस्य मनोनुभाग्या भवति यथा सुप्तम् बोधयति आदकेवदत् अग्निन्यक्ताः पत्ने सञ्जा नाम तेनाः ज्ञेयकम् सर्वम् भवति एकथा च यस्मिनैव देवतामुपैदेत्याहुः सैनवेश्वरा प्रदहयिते नेदग्ब्रूजात् प्रजननम् वा अग्निः प्रजननमेवोपैतेति कृतयतः सम्भदसम्भार असम्भृत्या सम्भाराः तयजः कार्यमिति अथो खलु सम्भृत्यादेव सम्भाराः कार्यम् यजो पुनराधेयस्य समृद्ध्यै तेन पाकुंशु प्रचरति येष्ट्येण यत् पुनराधेयः यतोपाकुंशु नष्टमिच्छति कार्यकेव तत् उच्चैस्विष्टगतमुत्सजति यथा नष्टम् वित्त्वा प्राहारमिति तादृगे मत् एकथा ते कस्मिनै देवतामुपैदेत्याहुः हैनमेश्वरा प्रदह है इति तर्तसा नोपैति प्रजानुयातेष्वेव भक्तेः कुर्यात् यथा पूर्ववाद्यभागो स्यादाः एवम् पत्नी सैयाः अद्वैरेश्वानवप्रजानवत्तनवपैतेति तदाहो यद्धम् वा एतत् अनाग्नेयम् वा एतत् क्रियत इति वेति ब्रूयात् अज्ञम् प्रथमम् विभक्तेनाङ्ग्यजति अग्निवत्तमम् पत्नैशैयाजानाम् तेनाग्नेयम् तेन समर्थम् ते नैव धर्मे वाजपेयमपश्यन् ते अन्याः अन्यस्त्वेनातिष्ठन्त अहमनेन यजा इति हे ब्रुवन् आजिमस्य धा वामेति तस्मिन्नाजिमधावन् तम् बृहस्पजोदजयत् तेना यजता सस्वाराज्यमगच्छत् तमिन्द्राब्रवीर मामनेन एनेन्द्रमयाजयद् दे, स्वाग्रम् पर देवतानाम् पर्यैर अगच्छत् स्वाराद्यम् अतिष्ठन्तास्मै ज्येष्ठ्याय एवम् विद्वानवाजपे येनैजते गच्छति स्वाराद्यम् अग्रगं समानानाम् पर्ययति तिष्ठन्तेऽस्मै ज्येष्ठ्याय सभाजे शभ्रा मनस्य दैवराजन्यस्त च यज्ञः अहम् वा नेतम् वा जपे लयित्याहुः वाजाप्यो वा जगश्चेतेन देवा अयिप्सन् स्वभावै वा जपेयः यो वै सोमम् वा जपेयम् वेद जानते अन्नम् वै वाजपेयः एवम् वेद अत्यन्नम् आस्यान्नादो ब्रह्मवेगः यदेवम् वेद अत्यग्ब्रह्मणान्नम् आस्य ब्रह्मा जायते वाग्वैवाचस्य प्रथमः य एवम् वेद कलवति वाचा वीर्यम् ऐनम् वाचा गच्छति अभिमतीम् वाचम् वदति प्रजापुरुदेवेभ्यवरिज्ञान्यादिशत् सन्नादिवेगमधत्ता अेव अब्रुवन् एधवापयज्ञः यद्वाजपेजः अप्रेमनोऽत्रास्मिन् एभ्य एतावद्युते प्रायच्छत् आवा एतावद्युतयो व्याख्यायन्ते यज्ञस्य सर्वत्वाय देवता नाम यद्भागाय देवावे ब्रह्मणश्चान्यश्च समनममाभिन् यद्ब्रह्मणः समनमासीत् सा गाचा नाराशज्ञस्य भवत् यदन्नस्य साधुराः तस्माद्गायनश्च मत्तस्य जनप्रतिगृह्यम्प्रतिगृह्णीयात् शमनम् प्रतिगृह्णीयात् सर्वा वा यजस्य वाचोऽवरुद्धाः यो वाचेशाजी या पृथिव्यायग्नौ या ने यान्तरेक्षेया वायौ या, या, या, या वामधेव्ये याधियाज्ञेया याक्षजौषधे शुगावनस्परिषो तस्माद्वादवेज्यार्विजीनः सर्वाह्यस्य वाजोऽवलुब्धाः देवावेयदन्यैर्ग्रहेर्यज्ञस्य नावालुम्भद तदधिग्राह्यैर्जगिष्यावालुम्भद दे तददिग्राह्या नाम निग्राह्यत्वम् यदरिग्राह्या दृश्यन्तेवान्यैर्ग्रहेज्ञस्य नावलुम्भे स्यावरुन्धे दे रजगृह्यन्ते तान्तो यज्ञः यावानेव यज्ञः तवाप्तावरुन्धे सर्व एन्द्रा भवन्ति एकथैव यजमानेन्द्रियम् दशि सप्तदशप्रापत्याग्रहानित्यन्ते सप्तदशप्रजापतिः प्रजापतेनाप्ये एकचत्रागृह्णापि एकथैव यजमाने वेद्यम् दधाति सोमग्रहागिश्च दुराग्रहागिश्च गृह्णाति एतद्वै देवानाम् परमान्नम् यत्सोमः एतन्मनुष्याणाम् यत्सुराः परमेणैवास्मा अन्नाग्मन्नाड्यमबन्धे सोमग्रहान् गृह्णाति बृह्मणो वा एतत्तेजः यत्सोमः ब्रह्मण <Sessant>, एव तेजसा तेजो युजमाने दधाति सुराग्रहाम् गृह्णाति अन्नस्य वा एतच्छमलम् यत्सुराः अन्नस्यैव शमलेन शमल युजमाना तु वहन्ति सोमग्रहागिश्च सुराग्रहागिश्च गृह्णाति पुमाय सोमः श्रीसुराः तन्मिथुनम् मिथुनमेवासि तद्दिव्ये करोति प्रजननाय आत्मानमेव सोमग्रहे शृणोति व्याजागुंसुराग्रहैः तस्माद्वाजपे याद्यष्मिल्लोकेष्मिकम् या सम्भवति वाजपेयाभिजितग्रह्यस्य ओर्वे सोमग्रहानित्यन्ते अपरे सुराग्रहाः पुरोक्षगं सोमग्रहान् साधयति पश्चादक्षगंसुराग्रहा पापस्य तस्य मिथित्यै एषवै यदमानः यत्स्वामः अन्नकंसुराः स्वामग्रहागश्च सुराग्रहागश्च व्यतिशति अन्नाद्येनैव्यति सजति संवृजम् मा भद्रेण पञ्चत्याः अन्नम् वैभद्रम् अन्नाद्येनैवेन सकम् सृजति अन्नस्यवानेतच्छमनम् यत्सुराः आत्मेव खलु वे शमनम् ्यनिधजने यत्सोमग्रहागिश्च सुराग्रहागश्च व्यनिषजति शमने व्यावर्तयते तस्माद्वाजमे निराजीभूतो मेभ्यो लक्षिण्यः आद्रमणि सोमग्रहैः अमुदेजयते तत्याम् सुराग्रहैः इममेव ते लोकमभिजयते अतिष्ठन्ति सोमग्रहैः यावदेव सत्यम् तेन सूचते बालसुभ्यः सुराग्रहानु अनुतेनैवपि सकम् सकम् सरति एर्ण्यपात्रम् अथा पूर्णम् एकथा ब्रह्मणमुपहरति एकथैव यजमानायस्तेजो दधाति ब्रह्मवादिना भजन्ति नाग्निष्टोमो नोक्ष्यः न षोडशे नादिगात्रः ना सर्वे यज्ञकृतमोपरुभ्यन्त इति पशुफलति ब्रूयाच आग्नेयम् पशुमानफले अग्निष्टोममेपदेनावरुन्धे ऐन्द्राग्ने लोक्ष्यम् ऐन्द्रेण सारस्पत्यादिहात्रम् मारुत्याभिहतस्तोत्रम् एतावन्तो वीयज्ञक्षतमः आत्मशुभिरेवावृन्धे आत्मानमेव स्मृत्यग्निष्टोगेन प्राणापालावेन स्तोत्रेण वाचमजरात्रेण प्रजास्तोत्रेण इममेव लोकमभिजयत्यज्ञष्टोगेन अन्तरिक्षमुक्षेन स्वर्गम् लोककं षोडशिनस्तोत्रेण देवयानानेव पथारोहत्यतिरात्रेण ना, नागकं रोहतिबृहदस्तोत्रेण तेज एवात्मन्धत्ता ज्ञेन वशुनाः वो जोबलमैन्द्राग्नेन इन्द्रियमहीन्द्रेण आचकुंसारस्पत्या उभावेवदेव लोकम् च मनुष्यलोकम् चाभिजयति वा नृत्यावशया सप्तदशप्राजापत्याः सप्तदशः प्रजापतेः प्रजापतेनात्यैः श्यामारेकरूपा भवन्ति एवमेव प्रजापतिः समर्थ्यै तान् परियज्ञकतानुत्सृजने मर्दयज्ञमधिघातुम् सन् प्रजापतेः एभ्य एताम् मारुतेम् भुषा मालफला एवेनानुसमयत् मारुत्या प्रचल्य एताम् साङ्क्येन मरुत एव समयित्वा एतैः प्रचलति यज्ञस्याघाताय एकथावपायुभोति एकदेवत्यादि एते अथो एकथैव यजमाने वीर्यम् नैवारेण सत्रावेणैतरे प्रचलति एतत् पुरोडाशाख्यते अथो पशूनामेव छिद्रमपि दधाति सारस्पत्यात्तमया प्रचलति वाति तस्मात् प्राणानाम् भागोत्तमा अथ प्रजापतावेव यज्ञम् प्रतिष्ठापयति प्रजापतिभाग अपन्नदती ष्याः वा सर्वाम् वाकम् वदन्ति सा विप्रम् जहोति कर्मणः कर्मणः पुरस्तात् दे। कस्तद्वैद्याहुः यद्वा जपेयश्च पूर्वम् यतपनमिति समितप्रसूदय एव यथा पूर्वम् कर्माणि करोति समने सवने, सवने जुहोति आक्रमणमेव दत्सेत यतमानः कुरुते स्वसर्गस्य लोकस्य समष्टे वाचस्वदर्वाचमध्यस्वदाजिन्याह वाैदेवानाम् पुरान्नमासीत् वाचमेवास्मारन्नस्पतयति इन्द्रस्य वग्रोदिमात्रभ्यैतिनसौवावहरति विजित्ये वाचस्वनप्रे मातरम् महीमित्याह यच्चैवेयम् यच्चास्यामधि तदेवावरुन्धे अथो तस्मिन्नेवो भगेऽभियच्यते अप्सुन्दरमजमप्सुभेषजमित्यस्मान् पन् पोलयति अप्सु वा अश्वस्य तदीयम् प्रविष्टम् यदप्सुमन् पूलयति यदेवा स्यात्सु प्रविष्टम् तदेवावरुन्धे बहु वा अश्व मेध्यमपगच्छति यदक्षुमन् पोलयति मेध्या नेवेनाहम् एतावा एतम् देवता अग्रे अश्वमयुञ्जन्ते सरस्योद्यित्यैक्तिव्यावृत्यै अपाहन्नपादासुखे मण्डिसंवाहाष्टिभ्यदेवेनाहम् करोति असौस्तौ देवेन नाजिम् ना सरिष्यतः विष्णुक्रमान् क्रमते विष्णुरेमभोद्देवान् लोकानभिजयते वैश्वरेवो वैरथः अङ्कौन्यङ्काभ्युतोऽर्थ विद्याः या एव देवतारचे प्रविष्टाः ताभ्यदेव नमस्करोमि आत्मनासमलसम्भागोऽस्य रसा भवति य एवम् वेदा